मुद्गलपुराणं खण्डं फैव् जम्बोदरचरितम् अध्यायं तर्टीन् शक्तिवरप्रदानं श्रीगणेशाय नमः मुद्गल उवाच पुरा दैत्याधिपक्रूरो ब्रह्मणो वरदानदः महिषासुरनामाध बभूव भुवनाधिपः जित्वा देवगणान् सर्वां तथा स्वर्गेषु दैत्यपान् स्थापयामास दुर्बुद्धिरवध्यः सर्वभावदः ततः कर्मविहीनं वै सर्वे उपोषण परास्तदः ततो देवर्षिभिस्तत्र तपःसाराधिता भवद शक्तिसर्वमयी साक्षादसत् स्वानन्दवासिनी प्रगतेषु सहस्रे वै वर्षेषु प्रकटा भवद वरदानैर्वृदा देवी वधाय महिषस्य सा पुरुषात्तस्य भवति न महिषस्य च जिदा वयं महादेवी रक्षनो नो महदोभयाद तस्य नाशं कुरुष्वत्वं सर्वेषां सुखकारणाद पुत्रास्ते च वयं देवि रक्ष रक्ष महाभयाद तथेदि तानुवाचैव वा, सिंहगाक्रोधसंयुधा ययौ दैत्य सा महामाया प्रजापदे स्थितावनान्तरे धृत्वा मोहिनीरूपकं जगौ गानं रसयुधं शक्तिशुश्रुवे तत्र कोऽसुरः स आगत्य महाशक्तिं दृष्ट्वा मोहयुधो भवद गत्वा दैत्याधिपं सध्य कथयामास विस्तराद सब्रह्माण्डे समं किञ्चित्तया रूपेण तेजसा स्त्रीरत्नं तद्विजानीहि राज्यभोगी गृहाण च दैत्यस्य वचनं श्रुत्वा मोहयुक्तो महासुरः प्रधानं प्रशयामास तां समानेदुमादराद प्रधानेन महामाया मायादृष्टा मोहविवर्धिनी मोहितः स उवाचाध तां सर्वाधिकरूपिणी महिषो देवि सर्वस्य ब्रह्माण्डस्य पतिः परः मृत्युहीन सदा यौवनशालीशोभयायुधः तेनाहं प्रेषितो नूनं त्वदर्थं रूपशालिनि भवपत्नीमहाभागे दैत्ये शस्य महात्मनः तस्य तद्वचनं श्रुत्वा क्रोधयुक्ता बभूवः जगादतं मदोत्सिक्तं दैत्यामात्यं प्रजापदे शक्रिरुवच परस्याकं महादैत्यस्त्रीकिं किं वदसि मां हनिष्यामि पुनर्भाषणसंयुतं तस्यास्तद्वचनं श्रुत्वा क्रोधयुक्तो महासुरः दैत्यानाज्ञापयाम स तां समानेदुमादराद तदाज्ञयामः दैत्या, समाने दैत्या समाजग्मुत्समन्तदः तान् दृष्ट्वा क्रोधसंयुक्ता सा बभूव यशस्विनी क्रोधानलेन सर्वान् सा ददा क च प्रजापदे तद्दृष्ट्वा परमाश्चर्यं पपाल सचिवोभयाद ज्ञात्वा वृत्तान्तमुग्रं समहिषो मोहसंयुधः स्वयं सैन्यसमायुक्त आययौ तां यशस्विनीं तां दृष्ट्वा कामबाणैः विद्धो दैत्याधिपस्वयं सचिवान् प्रशयामास धर्तुं समीपसंस्थितां देव्या शस्त्रप्रहारेण हता सर्वे प्रजापदे ततोऽधिकोपसंयुक्तस्वयं रणसमागतः समागतं महादैत्यं देवी क्रोधसमन्विता धनुः चमधो कृत्वा बाणान् चिक्षेपदारुणान् तद्बाणैरभिदैत्येषामृधा के जिद्रणाजिरे केचिच्छिन्नास्तथा केजिन्मूर्च्छिताः सं बभूविरे तदः कोपयुधो दैत्यो महिषा सुरसंधः युयुधेतां महाभागाम् नाना शस्त्रास्त्रकैः परैः युद्धं तत्र महाघोरं जातं तद्भयदायकं सर्वेषां च प्रजानाथ परस्परजयैषिणोः एकवर्षं महादैत्यो युयुधे जतया ततः कोपसमायुक्तपर्वतं चिक्षिपे सुरः पर्वताकादमात्रेण मूर्छिदां जगदम्बिकां तादृशीं तां यावन्मनो दधे तावत् सा सावधानाभूदृष्ट्वा दैत्यं महाबलम् अन्धर्धाय स्वमात्मानं ययौ देवी हिमालयं तत्र खेदसमयुक्ता सा चेदसि दधारः अहोकं मनसा सर्वं भस्मकुर्यां क्षणार्धतः स्त्रीहस्तेन महादैत्यो मरिष्य तथापि मां जिगायैव यशो युक्तो अदो अधो विघ्नेश्वरेणैव कृतो विघ्नो न संशयक भ्रान्दाकं तमः पूज्यादौ गदा सङ्ग्राममण्डले अहोशक्तिस्वरूपाकं मच्छक्रिया वर्तदेखिलं जिदाशक्तिविहीना च जाता कौतुकमुत्तमम् अधः शक्तिरशक्तत्वं ममाधीनं न वर्तते विघ्नराजस्य सत्ताया सत्या सा अन्यत्र यदा गणेश्वरस्तुष्टस्तदा जीवा महेश्वराः ब्रह्माणि शक्तिरूपाणि शक्तं नान्यत् कदाचन एवं मनसि सन्धार्य सति सन्तापसंयुता त्यक्त्वा सर्वं तपस्तेवे निराकारपरायणा विंध्याचलं समासाध्य संस्थिता जगदम्बिका विघ्नराजं हृदि जाप वर्ष एवं वर्षसहस्रेणैकाक्षरं विधिना तदा तपस्वग्रेण विघ्नेश सन्तुष्टस्तां ययौ परम् अस्ति चर्मावशेषां तां वीक्ष्य विस्मिदमानसः बोधयामास शक्तिं स विघ्नेश करुणानिधिः विघ्नेश उवाच पश्य शक्रे च मां प्राप्तं यं ध्यायसि निरन्तरं वरं दातुं वृणुष्वत्वं दास्यामि भक्तियन्त्रितः भक्त्या च तपसा देवि सन्तुष्टं देविशेषतः तवाधीनं न सन्देहः पश्य वरदायिनम् तस्य तद्वचनम् श्रुत्वा जगदम्बा बुबोध च अपश्यद्गणराज्यम् तमुद्धाय प्रणनाम सा पुबु च भक्तिसंयुक्तातुष्टावकरसम्पुटैः पुनः प्रणम्य विघ्नेशम् सर्वसिद्धिप्रदायकम् शक्तिरुवाच विग्नेशाय नमस्तुभ्यं भक्त विघ्न विनाशिने अभक्ताशेषेण विघ्नकर्त नमो नम गा गणा वै पालकाय परात्मने, सर्वत्र गुणरूपावस्थिताय नमो नम अमेय अमेयक् चेय मया प्रचालक मयाकीन स्वूपा मयिभ्यो मोहदाइने ब्रह्मभ्यो ब्रह्मे ब्रह्मणस्प नम ब्रह्मणे ब्रह्मय्वाय नमो नम कर्मणां फलदात्रेते कर्मणां कर्मधारक कर्मयोगस्वरूपाय परेशाय नमो नमः ज्ञानानां ज्ञानरूपाय प्न्यान ज्ञानिनां ज्ञानधारिणे प्न्यान सदा ज्ञानविहीनाय ज्ञानयोगाय ते नमः समाय च स्वरूपाय समेभ्यः साम्यदायते आनन्दानन्दकन्दाय समहीनाय ते नमः सहजाय विहीनाय सहजैः सहजात्मने सहजानां तु योगाय निर्मोहाय नमो नमः स्वानन्दाय सदा स्वानन्दानां स्वानन्दमूर्तये मायायुक्ताय देवेश सर्वाधीशाय ते दे नमः अयोगाय सदा ब्रह्मनिवृत्तिं धारिणे नमः असम्प्रज्ञादभावाय लम्बोदर नमो नमः शान्धिरूपाय योगाय योगाभ्यो योगदायते चित्तभूमिविहीनाय नमश्चिन्तामणे नमः क्षमापराधकं नाथ विस्मृत्याभ्रमसंयुता अप्रपूज्य गणाधीश गदा योद्धुं परात्परम् अधुना मे वरं देहि त्वत्पादरसदायकं महाभक्तिप्रदं नाथ येनाहं तोषिदा त्वया जयं देहि गणाधीश महिषस्य वधाय वै रतायै देवदेवेश नमस्के परमेश्वर एवं तस्याः संस्तुवत्या भक्त्या रससमुद्भवः तेन युक्ता ननर्तैव नेत्रा प्रजापदे लम्बोदरस्तादृशीं स निरीक्ष्यैव जगतताम् त्वया यद्यचिदं देवि तत्सर्वं सफलं भवेद् त्वया कृतमिदं स्तोत्रं भवेद्भक्तिरसप्रदम् अपराधस्य देवेशि सहने करणं मयि भुक्रिं मुक्रिं प्रदास्यामि स्तोत्रेणाकं हि संस्थुतः यं यं चिन्तयसे कामं तं तं दास्यामि निश्चितम् ेव मुक्त्वां तद्दधेऽसौ गणेशो ब्रह्मणायकः शक्दिखिन्नेव तत्रैव संस्थिता ध्यानसंयुधापयामास मूर्तिं सा ब्राह्मणैर्वेदपारगैः पूजयामास तां तत्र ततो योद्धुं समागदा तदाधिगणराजस्य स्थानं तत् पप्रधे भुवि सर्वसिद्धिकरं पूर्णं यात्राकारिजनस्य च ब्रह्म प्रदं पूर्णं तत्रैव मरणे सति विघ्नेश्वरस्य दक्षैतद्बभूवे सर्वदा प्रियं महिषासुरकं देवी जखानवरदानतः युद्धं कृत्वा महाघोरं लालसा। पुनः समागदा देवी विघ्नेश्यक्षेत्रके प्रभो तत्र नित्यं महाभक्त्या भजदे गणनायकम् इदं लम्बोदरस्यैव चरित्रं सर्वदं परं यशृणो दिनरो भक्त्या पठेद्वा तस्य सम्भवेद् ओं तत्सदिश्रीमदांद्ये पुराणोपनिषद्दीश्रीम्न्मौद्गले महापुराणे पंचमे खंडे लंबोदरचलिद शक्तिवर प्रधाननामदशोध्या